श्रीमद्भागवत महापुराणं दसं स्कन्धम् अथ सप्तत्रिंशोऽध्यायः केशि और व्योमासुरुका उद्धार तथा नारदजी के द्वारा भगवान की स्तुति शेषोकुवाच केशीतुकंसप्रहित खुरैर्महिं महाभयो निर्जरयन्मनोजव सटावधूताभ्रविमानशङ्कुलं कुर्वन् न भोहे सितभीषिताखिला विशालनेत्रो विकटाचकोटरो बृहद्गलो नीलमहाम्बुदोपम्मा दुराशय कंसहितं च कीर्षर्व्रजं तु नन्दस्य जगामकम्पयन् तन्त्राशयन्तं भगवान् श्वागोकुलं तद्धे सितैर्बालविघूणिताम्बुदम् आत्मानमाजो मृगयन्तमग्रणीरूपाहूयसं जनदन् मृगेन्द्रवत् स तं निशम्याभिमुखो मुखेन कं पिबन्निवाभ्य द्रवदप्त्यमर्षणः जघानपद्भ्याम् अरविन्दलोचनं दुरासदश्चन्दजभो दुरद्य तद्वञ्च यद्वा तमथोक्षजोरुषा प्रगेयदोर्भ्यां परिवेध्यपादयो धनुसतान्तरे यथोरगं व्यवस्थितः सलब्ध्यसंज्ञा पुनरुत्थितोशाब्जादाय केशीतरसा पतद्धरीं सोऽप्यस्तवक्त्रे भुजमुत्तरं तमेधमालेन स कृष्णबाहुना निरुद्धवायुश्चरणान् स विक्षिपन् प्रस्मिन्नगात्र परिवृत्तलोचन पपातलिण्डं विसृजन्क्षितो व्यसू तद्देहतकरकीटकाफलोपमादजशोरपाकृस्य भुजं महाभुज अविस्मितो यत्न हतारि रुक्मयै प्रसूनवरसैदिविषद्भिरीडितः देवरसी देवर्षिरूपसंगम्य भागवत प्रवरो नृप कृष्णमक्लिष्टकर्माणं रहस्येदन्तदम्भासत कृष्णकृष्णा प्रमेयात्मन्योगे स जगदीश्वर वासुदेवाखिला वास सात्वताम् सात्वतां प्रवरप्रभो, तमात्मा सर्वभूतानां एको ज्योतिर्वैधसाम् गुढो गूढो गुहाश्रयशाक्षी महापुरुषेश्वरः आत्मनात्माश्रयपूर्वं माययास सृजे गृणान् धैरिदं सत्यसङ्कल्पश्रियस्त्यस्य वशीश्वरः सतम्भूतरभूतानां दैत्यप्रमुतरक्षसाम् अवतीर्णो विनाशाय सेतूनां रक्षणाय च दिश्चाते निहितो दयत्यो लीलियायं भया कृतिः यस्य हे सितसन्त्रस्ता तजन्त्यननिमिषादिवं चाडूरं मुष्टिकं चैव मल्लान्नन्यास्य हस्तिनं कंसं च निहितं द्रक्षे परस्वो हनि ते विभो तस्यानुशङ्खयवनम्राणां नरकस्य च पारिजातापहरणम् इन्द्रस्य च पराजयम् उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणं दिगस्य मोक्षणं पापाद्वारकायां जगत्पते शिमन्तकस्य च मणिरादानं च भार्यां मृतपुत्रप्रधानं च ब्राह्मणस्य सुधामतः पौण्ड्रकस्य वधं पश्चात् काशीपर्यास्य दीपनम् दन्तभक्त्रस्य निधनं चैद्यस्य च महाकृतौ यानि चान्यानि वीर्याणिं द्वारकामावसन् भवान् कर्ता दक्षाम्य हंतानि ज्ञेयानि कविभुम्भिर्भुवि असते कालरूपस्य छपिष्णोर्मुष्य वै अक्षौहिलीनां निधनं दक्ष्याम्यर्जुनसारथे विशुद्धविज्ञानघनं स्वसंशया समाप्तसर्वार्थमोघमाञ्छितम् स्वते यथा नित्यनिवित्तमाया गुणप्रवाहम् भगवन्त मीमही स्वामेश्वरम् स्वाश्रयमात्ममाया विनिर्मिता शेषविशेषकल्पनं क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवेश्नि सात्वताम् शेषो उवाच एवं यदुपतिं कृष्णं भागवतप्रवरवं मुने त्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः भगवानपि गोविन्दो हत्वा केशिनमाहवे पशून् पालयत्पालये प्रीतये व्रजसुखावह एकदा ते पशुन्पालाश्चार्यन्तो दिशानुशो चक्रुर्निलायनन् क्रीडाचूरपालापदेशतः तत्रासं कतिचिच्चोराः पालास्य कतिचिन्नृप मेषायितास्ति तत्रैके विजह्रूर कुतो भयाः मे पुत्रो गोपालवेशरे मे सायिता नवो पोवाह प्रायश्चोरायितो बहून् गिरिदर्यां निक्षिप्य नीतं नीतं महासुर शीलया पि तथे द्वारं चतुः पञ्चविशेषिताः तस्य तत्कर्मविज्ञाय कृष्णषणदशतां गोपान्नियन्तं जग्राहमिकं हरिर्भोजसा स निजं रूपमास्थाय गुरुन्दसृजुशम्बली इच्छन् विमोक्तुमात्मानं नाशक्नोन् गृह्णातुरः तं न पातित्वा महीतले पश्यतां दिविदेवानां पशुमाराममारयन् गुहापिधानं निर्भिद्य गोपान्निषारिकृत्स्थतः तूयमानसुरैर्गोपैर् प्रविवेशशगोकुलं श्री श्रीमद्भागुते महापुराणे पारहिंसां शयितायां दशं स्कन्धे पूर्वार्धे व्योमासुरवधूनां सप्तत्रिंशोऽध्यायः